श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अथ द्वितीयोऽध्यायः कलियुक्तिधर्म शीर्षोकुवाच ततश्चानुदिनं धर्म सत्यं शौचं क्षमादया कालेन बलिना राजन्नक्षन्त्यायोर्वं स्मृतिः वित्तमेव कलौणां जन्माचारगुणोदयः धर्मन्यायव्यवस्थायाम् कारणं बलमेव हि दाम्पत्येभिरुचिर्हेतुर्मायैव व्यावहारिके चित्वे पुंस्त्वे च हीरचिर्विप्रत्वे सूत्रमेव हि लिङ्गमेवाश्रमाख्याता वन्योन्यापत्तिकारणम् अवृत्यान्यायदौर्बल्यं पाण्डित्ये चापलं वचः अनार्जितैव साधुत्वे साधुत्वे दम्भयेवतो स्वीकार्येवोद्वाहे स्नानमेव प्रसाधनं दूरे वार्यं तीर्थं लावण्यं केशधारणम् उदरं भर्ता स्वार्थ सत्यद्वे धार्च्यमेव हि दाक्षं कुटुम्बभरणं यसोर्थे धर्मसेवनं एवं प्रजाभिदुष्टाभि आकीर्णे चितिमण्डल ब्रह्मविच्छत्र शूद्राणां यो बलीभवितालिपः निपः हि लुब्धै राजान्यै निघृणये दशिधर्मभिः आच्छन्नारद्रविणा यास्यन्ति गिरिकाननम् साकमूलाभिषक्षोद्रफलपुष्पाशि भोजनाः अनावृष्टां नक्षन्ते दुर्भिक्षकरम् पीडिताः शीतवातातपप्रावृण्मैरण्योन्यतः प्रजाः छुदृद्भ्यां जातिभिश्चैव सन्तप्यस्य ते चिन्तया त्रिंशद्विशति वर्षाणि परमायुकलौ नृलाम् हीयमाणेषु देहेषु देहिनां कलदोषतः वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणां पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु चौर्यानृतवृथाहिंसा नानावृद्धेषु वैनुषु सद्यप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु अणुप्रायासु सन्धिषु समिप्रायेषु स्थाणुषु विद्वत्प्रायेषु मेघेषु शून्यप्रायेषु मद्वसू इत्थं कलौ गतप्राये जनेतु मृणिं खरं धर्मणि धर्मत्राणाय सत्वेन भगवान अवतरिष्यति गुरोर चराचरि गुरोर्विष्णोर् ईश्वरस्याखिलात्मनः धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये शम्भं लग्राममुख्यस्य ब्राह्मणस्य महात्मनः भवने विष्णुयश स कल्के प्रादुर्भविष्यति अश्वमाशोगमारुह्य देवदत्तं जगत्पतिः असिना साधूदमनम् अष्टैश्वर्यगुणान्वितः वितृन्नाशुना क्षूण्यां हयेना प्रतिमद्युतिः निपलिङ्गच्छदो दस्युन्कोटिशो निहिष्यति अथ तेषां भविष्यन्ति मनांसि विसदादि वै द्वासुदेवाङ्गराघाति औरजानपदानां वैहते स्वखलिदस्यसु तेषां प्रजाविसर्गश्च सविष्टशं भविष्यति वासुदेवे भगवति सत्वमूर्तौ हृदि स्थिते यदावतीर्णो भगवान् कल्के धर्मपतिर्हरि हितं भविष्यति तदा प्रजासूतिश्च